शिवगीता चतुर्दशोऽध्यायः श्रीराम उवाच भगवन् यदि ते रूपम् सच्चिदानन्दविग्रहम् निष्कळं निष्क्रियं शान्तं, निरवद्यम् निरञ्जनम् सर्वधर्मविहीनं च मनोवाचाम् अगोचरम् सर्वव्यापितया आत्मानम् ईक्षते सर्वतः स्थितम् आत्मविद्या तपोमूलम् तद्ब्रह्म उपनिषत्परम् अमूत्तम् सर्वभूतात्म आकारं कारणकारणम् यत्तद् अदृश्यम् अग्राह्यम् तद्ग्राह्यम् वाकतं कथम् भवेत् अत्र उपायम् अजानन् तेन खिन्नोऽस्मि शङ्कर श्रीभगवानुवाच शृणु राजन्प्रवक्ष्यामि तत्र उपायं महाभुज सगुण उपासनाभिस्तु चित्त एकाग्रम् विदायच च तूलसौराम्बिका न्यायात् तत्र चित्तम् प्रवर्तयेत् तस्मिन् अन्नमये पिण्डे स्थूलदेहे तमूभृता जन्मव्यादिजरामृत्युनिलये वर्तते दृढा आत्मबुद्धिरहम्मानात् कदाचिन्नैव हीयते आत्मा न जायते नित्यो म्रियते वा कथञ्चन सञ्जायते अस्ति विपरिणमते वर्धते तथा क्षीयते नश्यतीत्येते षड्भावावपुषस्मृताः आत्मनो न विकारित्वम् घटस्तनभसो यता एवम् आत्मा वपुस्तस्मादिति सञ्चिन्तयेद् उदः मूषा निक्षिप्त हेमाबः कोशः प्राणमयो अत्र तु वर्तते अन्तरतो देहे बद्धः प्राणादि प्राणादिवायुभिः कर्मेन्द्रियैः चलनादि चलनादिक्रियात्मकः क्षुत्पिपासा पराभूतो नायमात्मा जडो यतः चिद्रूप आत्मा येनैव स्वदेहम् अपि पश्यति आत्मैव हि परम् ब्रह्म निर्लेपः सुखनीरधिः न तदश्नादि किञ्चैतदश्नाति न कश्चन ततः प्राणमये कोशे कोशोऽस्ति एव मनोमयः सङ्कल्पविकल्पात्मा बुद्धिन्द्रियसमायुतः कामः क्रोधस्तथा लोभो मोहो मात्सर्यमेवच च मदश्चेदरिषड्वर्गो ममता इच्छादयोऽपि मनोमयस्य कोशस्य धर्मायेतस्य तत्र तु या कर्मविषया बुद्धिः वेदशास्त्रार्थनिश्चिता सार्धम् विज्ञानमयकोशतः इह कर्तृत्व अभिमानी स एव इह अमुत्र सजीवो स जीवो व्यावहारिकः व्योमादिसात्त्विकांसेभ्यो जायन्ते धीन्द्रियाणि तु श्रोत्रं भुवो ग्राणं जलाज्जिह्वात तेजसः चक्षुर्वायोस्त्वग् उत्पन्ना तेषाम् भौतिकता ततः व्यामोदीनाम् समस्तानाम् सात्विकाम् एव तु जायन्ते बुद्धिमनसि बुद्धिः स्यात् निश्चयात्मिका वाक्पाणिपादपायूपस्तानि कर्मेन्द्रियाणि तु व्योमादीनाम् रजोऽशेभ्यो व्यवस्तेभ्यस्तान्यनुक्रमात् समस्तेभ्यो रजोऽशेभ्यः पञ्चप्राणादिवायवः जायन्ते सप्तदशकमेवम् लिङ्गशरीरकम् एतम् लिङ्गशरीरम् तु तप्ता यः पिण्डवद्यतः परस्पर अध्यासयोगात् साक्षिसैतन्यसंयुतम् तदा आनन्दमयः कोशो भोक्तृत्वम् प्रतिपद्यते विद्याकर्मफलादीनाम् क्ता इह अमुत्र स अध्यासं यदा अद्यासम् विहायैष स्वस्वरूपेण मात्र अविद्यामात्रसंयुक्तः साक्षी आत्मा जायते तदा दृष्टान्तःकरणादीनाम् अनुभूतेः स्मृतेरपि अतो अन्तःकरण अद्यासात् अद्यासित्वेन च आत्मनः भोक्तृत्वम् साक्षिता चेति द्वैधम् तस्य उपपद्यते आतपश्चापि तच्चाया तत्प्रकाशे विराजते एको भोजयिता तत्र पुङ्क्तेऽन्यः कर्मणः फलम् क्षेत्रज्ञम् रथिनम् विद्धि शरीरम् रतमेव तु बुद्धिम् तु सारथिम् विद्धि प्रग्रहम् तु मनस्तता इन्द्रियाणि हयान् विद्धि विषयान् तेषु गोचरान् भोक्तारं भोक्तारम् विद्धिपूरुषम् एवम् शान्त्यादियुक्तः सन् उपास्ते यः सदा द्विजः उद्घाट्य उद्घाट्य एकमेकम् यतैव कदलीतरो वल्कलानि ततः पश्चात् लभते तथैव पञ्चकोषेषु मनः सङ्क्रामयन् क्रमात् तेषाम् मध्ये ततः आत्मानमपि विन्दति एवम् मनः समाधाय सम्यतो मनसि विजः अथ प्रवर्तयेत् चित्तम् निराकारे परात्मनि ततो मनः प्रगृह्णादि परमात्मानमव्ययम् यत्तद् अद्रेश्यमग्राह्यम् अस्तूलात् युक्तिगोचरम् श्रीराम उवाच भगवन्श्रवणेनैव प्रवर्तन्ते जनाः कथम् वेदशास्त्रार्थसम्पन्ना यज्वानः सत्यवादिनः शृण्वन्तोऽपि तथात्मानम् जानते नैव केचन ज्ञात्वापि मन्वदे मिथ्या किमेतत्तव मायया श्रीभगवानुवाच एवमेव महाबाहो न अत्र कार्या विचारणा दैवीयेषा गुणमयी मम माया तु रत्यया मामेव ये प्रपद्यन्ते मायाम् ये ताम् तरन्ति महाबाहो मम श्रद्धाविवर्जिताः फलम् कामयमानास्ते ऐकिक आमुष्मिकादिकम् च युष्णु अण्वल्पम् चातिशयम् यतः कर्मफलम् अथम् तदविज्ञायकर्माणि ये कुर्वन्ति न राधमाः मातुः पतन्ति ते गर्भे मृत्योर्वक्त्रे पुनः पुनः नानायोनिषु जातस्य देहिनो यस्य कस्यचित् जन्म आर्जितैः पुण्यै मयि भक्तिः प्रजायते स एव लभते ज्ञानम् मद्भक्तः श्रद्धया अन्वितः न अन्यकर्माणि कुर्वाणो जन्मगोटिशतैरपि ततः सर्वं परित्यज्य मद्भक्तिम् समुदाहर सर्वधर्मान् परित्यज्य माम् एकम् शरणम् व्रज अहम् त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा यत्करोषि यदश्नासि यज्जुहोषि तदासि यत् यत्तपस्यसि रामत्वं तत्कुरुष्व मदर्पणम् ततः तत परतरा नास्ति भक्तिर्मयि इति श्रीशिवगीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे पञ्चकोशोपपादनम् नाम चतुर्दशोऽध्यायः